श्रियम् तथा दृष्ट्वा ज्वलन्तीमिव पाण्डवे अमर्षवशमापन्नो दह्यामि न तथोचितः एवम् कृत्वा ततो वचनमब्रवीत् पुनर्गान्धार नृपतिम् दह्यमानयि प्रवेक्ष्यामि भक्षयिष्यामि वाविषम् अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् को हि नाम पुमान्ल्लोके मर्शयिष्यति सत्त्ववान् सपत्नान् रुध्यतो दृष्ट्वा हीनमात्मानमेव सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि योऽहं तां मर्शयाम्यद्य तादृशीम् श्रियमागताम् ईश्वरत्वम् वसुमत्ताञ्च तादृशीम् यज्ञञ्च तादृशम् दृष्ट्वा मादृशः को न सञ्ज्वरेत् अशक्तश्चैक एवाहम् तामाहर्तुम् नृपश्रियं सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये